ध्यायामोधानीता oh, oh, oh. <laughs> ्यामाजुतानन्दाेश्वरे नमः गणा स्वामहे कलिं कवीनामपमश्रवस्तमम् श्रेष्ठराजं ब्रह्मणां ब्रह्मणस्पतमानशुण्रसाम् श्रीमहागणपतये नमः स्टाण्ड् वन्स् टुगेदर् होल् बो सूक्तम् अण्ड् नीला सूक्तं ओके देन् विल् स्टार्ट् प्राक्टिसिङ्ग् इण्डिविज्वलिस् वे विल् नो And just in case we don't remember what it was last time. Okay? Ready? Okay. Together, Vusuktam uh, and Neela Suktam. Okay? Ready? One, two, three. Okay. Om. Om. Om. Om. Om. Om. Om. Om. Om. Om. नियादी आनयङ्गौ कृष्णीरप्रतन्मातरं पुनः पितर् कुनह पितरं प्रयन्सु वः दामभिराजति वाय शिश्री प्रत्युभिः अस्य प्रत्यस्य प्राणादपानस्य व्याख्य मन्महि शक्रुव यस्त्वा आकृपरोगपमन्युना यदवत्याम् सुकल्पमे सप्त पुनस्तो दीपयामसि यद्यपरोक्तस्य पृथिवी मनुदशे विश्वे तद्देवासवश्च सन्दरन् वसुन्दरा देवी वासवी ब्रह्मवच्चमाक्षोत्रं चक्षुणः देवी हिरणी देवी प्रसूवरी सदने सदने सत्यायी देव हयो देवी, ता देवी मत्स्यै ीबरणि महो व्यतिष्ठा शृङ्गे शृञ्जे यज्ञे यज्ञे विभीषिणे इन्द्रपति इन्द्रपति व्यापिनी सुरसरीतिः शृङ्गमति चलशयिनी श्रियम् दा राजा सत्यं दोपरिमेदिनी य विष्णुपत्नी महीम् देवी माधवीम् माधवप्रियाम् लक्ष्मी प्रियसती देवीं नमाम् यज्युतपल्लभाम् यै विद्महे सर्वसिद्ध्यै च धुल्मयै तन्नो दरा प्रचोदयात् किं ओके रिडि वितराधिपत्यै स्वीरन्तिपत्न्यघोरात्येषाणात्य सूर्यमनोता बृहस्पतिर् मातरिष्पोत वाुबाणा वाता अपि नो कृणन्तु विश्वविष्टम् देव्यो गरुणपृथिव्या अस्मि श्रयाणो जगतो विष्णुपतुः ओं शान्तिः Yeah. We didn't practice uh, Neela Suktan that much last time. So I'm sure some people had a little bit of difficulty. But we'll hopefully correct it this time. Is so it okay for everybody? Mm -hmm. Yes. Yeah. Yeah. Okay. Okay. Any questions, problems, anywhere? So then let's practice individually. Who wants to go? ॐ भोमेर्भोम् नाद्यौर्वरिणान्तरिक्षं महित्वा उपस्थेते देव्यदिते अग्निमन्नादमन्नाद्यायादते आयङ्गौ कृष्णिरस्क्रमीदसनन्मातरम् पुनः पितरम् च प्रयन्सु वः त्रिगुंशद्दामविराजति वाक्पदङ्गाय शिश्रिये प्रत्यस्य वहद्युभिः अस्य प्राणादपानत्यन्तश्चरति रोचणा यज्ञन्महिष सु वः यत्त्वा आ क्रुद्धः परोवपमन्युना यदवर्त्या सुकल्पमग्ने तत्तव पुनस्त्वोदि पयामसि यत्ते मन्युपरोक्तस्य पृथिवी मनु आदित्या विश्वे तद्देवा वसवश्च समावरन् मेदिनी देवी वसुन्दरा स्याद् वासवी ब्रह्मवर्चसः पितृणाक्षोत्रम् चक्षुर्मनह। देवी हिरण्यगर्भिणी देवी प्रसूवरी तदने सत्यायने सीद समुद्रवती सावित्री हनो देवि मह्यङ्गी महीधरणि महोव्यतिष्ठ शृङ्गे शृङ्गे यज्ञे यज्ञे विभीषिनी इन्द्रपत्नी व्यापिनि सुरसरिधिह वायुमती जलशयिनि श्रियं दाराजा सत्यन्दोपरिमेदिनी श्वोपरि दत्तं परिगाय विष्णुपत्नीं महीं देवीं माधवीं माधवप्रियां लक्ष्मी ईं प्रियसखीं नमाम् न मां यच्युतवल्लभाम् ॐ धनुर्धरायै विद्महे सर्वसिध्यै च धीमहि प्रचोदयात् ॐ गृणाहि धृतवती सवितराधिपत्यैः पयस्पतिरन्तीरषाणो पय पयस्वतिरन्तिराषाणो अस्तु ध्रुवा ध्रुवादिशाम् विष्णुपत्न्यकोरास्ये शाणासहसो या मनोता आ बृहस्पतिर्मातरिष्वोत वायुःसन्धुवाणावाता ृणन्तु विष्टम्बो देवो दिवो विष्टम्बो देव... देव... दिवो दरुणः पृथिव्यागते जगतो, असेश्या, जगतो विष्णुपत्नी पत्नी अस्के श्याणा जगतो विष्णु पत्नी वेरी गुड वेरी वेल डन आई थिंक यू हैव द बू सुक्तम वेरी वेल डन नीला सुक्तवैदिक जस्ट रीड लास्ट टाइम राइट सो बिकॉज़ दैट वी वर प्रैक्टिसिंग सो मेनी टाइम्स सो वेरी गुड वेरी वेल डन थैंक यू हु इज नेक्स्ट Can... Okay, ु दिते अग्नि मन्नात् मन्नाद्याया दधे आयङ्गौ पृष्णिरक्रमीप्रसनन् मातरं पुनः पितरम् च प्रयन्सुवः त्रिगुंशद्धामविराजति वाक्पतङ्गायशिश्रिये रोचना व्यख्यन्महिषः सुवः ुनायतवर्त्या सुकल्पमग्ने तत्तव यत्ते मन्युपरोक्तस्य पृथिवीमनुदध्वसे आदित्या विश्वे तद्देवा वसवश्च समाधरन् मेदिनी देवी वसुन्धरा ्यात् वसुधा देवी वासवी ए ब्रह्मवर्चसः पितृनागश्रोत्रम् चक्षुर्मनः देवी हिरण्यगर्भेनी देवी प्रसूवरी सदने सत्यायने सीद समुद्रवती सावित्री हनो देवी मह्यंगी ए मही महीधरणि महो व्यथिष्टा शृङ्गे शृङ्गे यज्ञे यज्ञे विभीषिणी इन्द्रपत्नी व्यापिनी सुरसरिदिह वायुमती जलशयनी श्रियं धाराजा सत्यन्धोपरिमेदिनी श्वोपरिभक्तं परिगाय विष्णुपत्नीं महीं देवीं माधवीं माधवप्रियां लक्ष्मी ईं प्रियसखीं देवीं न मां यच्युतवल्लभाम् ॐ अनुर्धा ॐ धनुर्धरायै विद्महे सर्वसिद्धि धीमहि चोदया ॐ शान्तिशान्तिशान्ति ॐणाशी घृतवती सवितराधिपत्यैः पयस्वतीरन्त्याशानो ध्रुवाद्याम् विष्णुपत्न्यघोरास्येषाना सहसो या मनोता बृहस्पतिर्मातरिश्वोतवायुसन्धुवानावाता अभिनो गृणन्तु विष्टम्भो दिवोद्धरुणः पृथिव्या अस्येष्याना जगतो विष्णुपत्नी ॐ शान्तिःशान्तिशान्तिः शान्ति ॐ भूम् निर्भूम् नाद्यौर्वन्तरिक्षं महित्वा उपस्थेते देव्यदितेऽग्निमन्नादमन्नाद्यायादधे दे। आयङ्गौः पृश्निरक्रमीदसन्नमातरम् पुनः दशनन्मातरम् पुनः दसनन्मातरम् पुनः पितरम् च प्रयन्सु ृगम् शब्धामविराजतीवाक्पतङ्गायशिश्रिये प्रत्यस्य वहद्युभिः अस्य प्राणादपानत्यन्तश्चरति रोचना व्यख्यन्महिषः सुवः यत्त्वा क्रुद्धः परोवपमन्युना यदवर्त्या सुकल्पमग्ने तत् पुनस्त्वो दीपयामसि करक् यत् ते मन्युपरोक्तस्य पृथिवी मनुदध्वसे ीपयामसि विश्वे तद्धेव सेम् पुनस्त्वसि मेदिनी देवी वसुन्धरा स्याद्वसुधा ब्रह्मवर्चसः पृतृनागश्रोत्रम् चक्षुर्मनः देवी हिरण्यगर्भिणी देवी प्रसूवरी सदने सत्यायनेसीद समुद्रवती सावि श्रीहनो देवी मह्यंगी मह्यङ्गी महीधरणी महोव्यथेष्टा शृङ्गे शृङ्गे यज्ञे यज्ञे विभीषिणी इन्द्रपत्नी व्यापिनी सुरसरिदिह जलशयनी श्रियम् धाराजा सत्यन्धोपरिमेदिनी परिधत्तं परिगाय विष्णुपत्नीम् महीम् माधवीं माधवीम् माधवप्रियाम् लक्ष्मी प्रियसखीम् देवीम् नमाम् यच्छुतवल्लभाम् ओ धनुर्धरायै विद्महे सर्वसिद्ध्यै च धीमहि तन्नो धरा प्रचोदयात् ॐ शान्तेशान् तेषान्तिः ॐ गृणाहि धृतवती ॐ गृणाहि धृतवति सविताराधिपत्यै पयस् पयस्वतीरन् नो अस्तु ध्रुवा दिशाम् विष्णुपन्त्यघोरास्त्येषा ना सहसो या मनोता बृहस्पतिर्मातरिश्वोत वायुः सन्धु वायुः सन्धुवानावायुस्सन्धुवानावाता ोत वायु सन्धुवाना वाताभिनो गृणन्तु विष्ठम्भो दिवो धरुणः पृथिव्या अस्ये श्याना जगतो विष्णुपत्नी ॐ शान्तिः रेस्ट् एल् न ॐ भूमिर्भूम्ना नौर्वरिणोन्दरी चं महित्वा उपस्ते देव्यदिते निमन्नादमन्नाद्यायादते आयङ्गौ पृश्निरक्रमीदशनन्मादरं पुनः पितरं च प्रयन्सु वः रघुं सद्दामविराजधिवाक्पदङ्गाय शिश्रिये प्रत्यस्य वह स्त्युभिः व्यत्यन्महिषसुवः यत्त्वा क्रुद्धपरोव मन्युना यदवर्त्या सुकल्पमग्ने तत्तव पुनश्च्योदीपयामसि यत्ते मन्युपरोक्तस्य पृथिवी मनुदधद्वसे आदित्या विश्वे तद्धे वसवश्च समाभरन् मेदिनीदेवि वसुन्धरा स्वाद्वसुधा देवी वसुन्धरा स्याद्वसुधादेवी वासवी ब्रह्मवर्चस पितृनागं श्रातं चक्षुर्मनः देवी हिरण्यगर्भिणी देवी प्रसूवरी सदने सत्यायने सीता समुद्रवदी सावित्री हनो देवी मह्यङ्गी महीधरणि महो व्यधिष्ठा शृङ्गे श्रृङ्गे यज्ञे यज्ञेणी इन्द्रपत्नी व्यापिनी सुरसरिदिहा वायुमीयन्दा परिमेदिनी त्योपरिदित्तम् परिगाया विष्णुपत्नीमहीं देवी माधवीं माधवप्रियां लक्ष्मीप्रियसगीं देवीं नमाम्यक्षुतवल्लभाम् ॐ धनुर्धरायै विद्महे सर्वसिद्ध्यै च धीमहि तन्नोदरा प्रचोदयात् one second hari i okay. i have to get to the other no, no problem one. Oh, very well done good there is in another thing one oh, second no problem take uh, take your time take that time. okay o grinahi grutavati savitara dipatye payasvati rindiraashano astu druva disham vishnu patni patnya gorasi shanaaksha shana शा, मनोता ोतवायुसन्धुवाना वाता अभिनोग् गृहन्तुम्बो विष्टम्बो दिवो दरुण पृथिव्या अस्य श्याना जगतो विष्णुपत्नी ॐ शान्तिः ओकेड् ॐ ूम्यर्हूम्याद्यौ वरिणां दरिक्षं महीत्वा उपस्ते देव्यदिदेग्निमन्नादमन्नाद्याया दधे आय आयम् ग्रः कृष्णचक्रमि दतनन्मातरं पुनः पितरं च प्रयन्तु महा कृतं श्रद्धामविराजदीपापतङ्काय श्रुये प्रत्यस्य वहद्युभिः अस्य प्राणादपानत्यन्तच्छरोचना यच्छन् महिष सुभः यत् वा क्रुद्धः परो भव मन्युना यदवत्या सुकल्पमग्ने तत्तव पुनस्तो दीभयामसि यत्ते मन्युभरुप्तस्य पृथवी मनुदध्वसे आदित्या विश्वे तद्धेवा प्रसवस्तु समाभरन् मेदिनी देवी वसुन्धरा स्याद्वसुदा देवी वासवी ब्रह्मवर्त्रसप्तृणा श्रोत्रम् चक्षुर्मनः देवी हिरण्यगर्भिणी देवी प्रसूवरी सत्यायने सीता समुद्रवती सावित्रै हनो देवी मह्यङ्गी महीधरणि महोव्यधिष्ठा शृङ्गे शृङ्गे यज्ञे यज्ञे विभीषिणी इन्द्रपत्नी व्यापिनी सुरसरिदिह वायुमदी जलशयनी श्रियन्धाय विष्णवत्नीं महीं देवीं माधवीं माधवप्रियां लक्ष्मीमहीं देवीं नमां यच्छुलवल्लभाम् धनुत्तराय विद्महे सर्वसिद्धै च धीमहि तन्नो धरा प्रचोदया आदन्तिः ॐ गुणाय कृतवती पयस्वतीरन्दिराचानो अस्तु ध्रुवा दिशां विष्णुपत्न्यै घोराद्येशाना सहसोया मनोता बृहस्पजल् मातरिश्वरा वायुसन्धुपाना बाधा अभिनू गुणन्तु विष्णु विष्टम्भो दिवो धरुणः पृथिव्या अस्येष्याना जगतो विष्णुपत्नी Om Chanti Chanti Chanti Very good, very well done. Who wants to go next? I'll go. Okay, okay go ahead. Om Bhoom Yathom Yathya Varenandarichan Mahitva उपस्ते देव्यदितेऽग्निमन्नादमन्याद्यायादधे आयङ्गौ प्रश्निरक्रमीरदसनन्मादरम् पुनः पितरं च प्रयं सुवः तृगं श्रद्धामविराजति वाक्पतङ्गायशिश्रिये प्रत्यस्य वहत्युभिः अस्य प्राणादपानाच्छन्दश्चरति रोचना यख्यन् महिषस्तु वः यत्त्वा आकृत्थरो वपवन्पमन्युनाय दवर्त्या सुकल्पमग्ने तत्तव पुनस्तो दीपयामसि यत्ते मन्यमन्युपरोत्तस्य पृथिवीं मनुधत्वसे आदित्या विश्वेतदेवासव्या विश्वेतद्धेवा आदित्या, आद। okay? आदित्या विश्वेसदेवा वसवश्च समाफरन् मेदिनी देवि वसुन्धरा स्याद वसुधा वसुधा देवी वासवी ब्रह्मवर्चस कृतृनागं श्रोत्रम् चक्षुर्मनः देवी हिरण्यगर्भिणी देवी प्रसूवरी सदने सत्यायने सीता समुद्रवती सावित्री हनो देवी मह्यङ्गी महीतरणिमहो व्यथिष्टा शृङ्गे शृङ्गे विभीषणी इन्द्रपत्नी व्यापिनी सुरसरिदिहा वायुमती जलशयनी श्रियम् धाराजसत्यन्तोपरिमेदिनी चोपरिदत्थम् परिकाया विष्णुपत्नीमहीम् देवी माधवी माधवप्रियाम् लक्ष्मी ईं देवीं देवीम् नमाम्यच्युतवल्लभाम् ॐ धनुर्धरायै विद्महे सर्वसिद्ध्यै च धीमहि खन्नोद्धरा प्रचोदयात् शान्ति ॐ गृणाही कृतवती सविधराधिपत्ये पयस्वतीरन्ति शासानो अस्तु ध्रुवा दिशां विष्णुपत्न्यघोरा स्वेशाना सहस्रयो सहस्र सहसोया, सहसोया. सहसोया मनोदा बृहस्पतिर् मातरिश्वोतवायुसिन्धुवानावाता अभिनो गृणन्तु विष्टम्भो दिवो धरुणपृथिव्या अश्वेशान अश्वेशाना जगतो विष्णुपत्नी Om shanti shanti shanti devi Very good Zindan You want to try next I can try Harry. Okay Zahed Great Om hum यौर्वरिणान्तरिक्षं महित्वा उपस्थेते देव्यदिते देव्यदितेऽग्निमन्नादमन्नाद्यायादधे uh -huh. आयङ्गौ प्रश्निरक्रमीदशनन्मातरं पुनः पितरं थि च प्रयन्सु वः त्रिगुंशत् ङ्गाय शिश्रिये प्रत्यस्य वहद्युतिः अस्य प्राणादपानत्यन्तरश्चति रोचना प्राणादपानत्यन्तश्चरति अस्य प्राणादपा प्राणादपानपानपानश्चरति अस्य प्राणातपानत्यन्तश्चरति रोचना यच्छन्महिष सु वः यत्त्वा अक्रुद्धः परो वपमन्युनायतवर्त्या सुकल्पमग्ने तत्तव पुनस्तो दीपयामसि आदित्या विश्वे तद्देवा वसवश्च समाभरन् मेतिनी देवी वसुन्धरा स्याद्वसुधा देवी वासवी ब्रह्मवर्चसपृतृ पितृणा पितृणा श्रोत्रम् सदने सत्यायने सीता समुद्रवती सावित्री हनु महो, महो व्यतिष्ठा शृङ्गे शृङ्गे यज्ञे यज्ञे विभीषिणी ई इन्द्रपत्नी व्यापिनी सुरसरिधिहा वायुमतिजलशयनि श्रियन्ध राजा सत्यन्धोपरिमेय परिदत्त विष्णुपत्नी महीं देवी माधवी माधवप्रियाम् लक्ष्मीं प्रियसखीं देवीं स नमाम्यच्युतवल्लभाम् ॐ धनुर्धरायै विद्महे सवि सर्वसिद्ध्यै च धीमहि तन्नों धरा प्रचोतया आत ॐ शान्ति शान्ति शान्तिः धिपत्यै सवितराधिपत्यै पयस्वतीरन्तिरा नो अस्तु ध्रुवा दिशां विष्णुपत्यघोर ेषाना सा सेषाना सहसोया मनोता आ बृहस्पतिर्मातरिश्वोतवायुः सन्तु वाना वाता अपि नो दिवो धरुण पृथिव्या अस्या अस्येषा अस्य श्या न जगतो विष्णुपत्नी दुर्गासूक्तम् I don't know whether you have the text or not. If you don't have the text, then maybe we can do it next time. But if you have, uh, you can probably try it. I forgot to send out which one you want to learn next. You can try, but... So let, let's try a little bit and then you know then at least we'll start it and then I'll again fill the text so you can look up for it next time so then we'll learn it again so next time it'll be probably easier. Let's try anyway yeah, so uh, we'll try for a, a few two or three sentences anyway. Om Jada Veda Se Swinavama तीयतो निदहाति वेदः निदः निेदसे सुनवासो मा मरातियतो निधातिवेदः वर्ड् ओके प्रोब् टेक्स्ट् टैल् बि डिफिकल् बट् दुप्पलि next time when you look see the words it might be easier to read okay um okay so let us try the uh, so we are learning the old way which is like uh, listen and say instead of looking at the book and reading <laughs> <laughs> okay so i'll try the first sentence okay i'll say it once and you try to repeat twice if possible otherwise uh, let's listen um जातवेदसे सुनवामसो मम रातीयतो सन स्पर्षदति सर्षति दुरिदात्यग्निः ग्निःता <Duritaat> वर्ड् ीपुल् डोन्ट् हे देक्स्ट् नो बट् एनिवेट् ट्रैट् ओके सोल् डू दिङ्ग् इन् टु पार मेबि टु त्री वर्ड् आल् जाइन् टुगेदर्षुर्गाणि विश्वाषि दुर्गाणि विश्वागाणि विश्वा ओके आल्ट्रै दोल् सेण्टेन्स् ल पीपल् विट् लेट् सी वट् डु स नः पर्षदति दुर्गाणि विश्वा नावेव सिन्धुं दुरितात्यग्निः ददति दुर्गा ओकेति नेक्स्ट् सेण्टेन् अग्निवर्णानि वर्णा तपसा ज्वलन्ती वैरोचनीम् कर्मफलेषु Karma Halesho, Karma Halesho, Jushta Aam, Jushta Aam, Jushta Aam. Words are okay? Yeah. Yeah. Okay. okay. I'll, I'll do three words at that time, no? Ta-Magnivar Naam. वैरोचनीम् कर्मफलेषु जुष्टा आम् वैरुचिरीष्टोल् okay, सेण्टेन्स्ति ग्निवर्णाम् तपसा ज्वलन्ती वैरोचनीम् कर्मफलेषु जुष्टानिवर्णा जलनी ओके दोल्ड् सेण्टेन्स्टक्स्ट् सेण्टेन्स्सो दुर्गां देवे गम् दुर्गा देवी गुर्गा देवी गु शरणमहं प्रपद्ये शरणमहं प्रपद्ये शरणमरण प्रपद्ये सुतरसि तरसे सुतरसि sutar sitar sitar se namaha namaha namaha namaha namaha udvachar okay okay okay let's do the second half one more time okay sutar sitar se namaha सुतर सुतर ल्डु द फर्स्ट् हाफ् ना दुर्गां देवेगं शरणमहं प्रबद्ये दुर्गां प्रबध्ये दुर्गा देवि गं शरमा प्राप् सुतरसि तरसे नमः सुतरसि तरसे नमः सुतर तरसि तरसे नमः सेण्टेन्स् दुर्गाम् देवेगम् शरणमहम् प्रपद्ये सुकरसितरसे नमः दुर्गाम् देवी Okay, that sentence also? Yes. Yeah. Yes. Yeah. Yeah. Okay, so let's do the, uh, from the beginning until here, I'll do once, and then after that we'll probably practice together a couple of times. Okay, then see how that goes, okay? Om Jada Veda Se Sunava Maso Mamaratiyat Onidahati Vedaha नः पर्षददि दुर्गाणि विश्वा नावेव सिन्धुम् दुरिदात्यग्निः तामग्निवर्णाम् तपःसा ज्वलन्तीम् वैरोचनीम् कर्मफलेषु जुष्टा दुर्गाम् देवेगम् शरणमहम् प्रबध्ये सुतरसितरसे नमः ॐ चाकवेदसे सुनवामसोया वेद स्वीता यज्ञिः ग्निवर्णाम् प्रपज्वलन्ति रोच रोचर्वेषु सर्वाम् दुर्गा देवी शरणम प्रपत्तिषु शरत् शरन्तु नमः ॐ जासे सुनपादः सनशि दुर्गाणि विवासिन्धुरिताग्निः ज्वलं कुरु कर्मचरणं कर नमः ओके परबि okay so let's stand it together a couple of times do it at least two times first and see how that goes then um we'll see okay ready 1 2 3 om jata veda teeshwa bhava to bhara yat bhuyatu vidaha vidaha स नः स न परश्च कर्म पदेशेषा दुर्गागा वे ने करणे ते वन् मोर् टैम् वन् टु त्रि ॐ स न वर्षश्चरज दुर्गाणि विश्वा देवता तामि पर्वज्वलम्बैरो कर्म फरे dorkamavi govindarana sharanam ahrepatir utara pite namaha okay for everybody yeah okay yeah. so anybody wants to practice on their own i can try yeah okay go ahead वेदसे सुनवामसो मम राधीयतो निदहाधिवेदः कनःपक्षदति दुर्काणि विश्वा नावेव सिन्धुम् दुरितात्यग्नहि ता आमग्निवर्णाम् तपसा ज्वलम्बिं वैरोचनीं कर्मफलेषु जुष्टा Yurkaam Devigam Charanamaham Pratatyasudarasi Narasenamha You do good. Do you have the text or are you just... Uh... I have the text. I have the need, listening to that on Sunday too. You know, when we do the love, that's ending. Oh, okay. The, that, that, that, that's how Swami is chanting. They okay. do that. Okay, good. Very good. So who wants to try next? Hold tight. ॐ जातवेदसे सुनवामसोमराति यतो निदहाति वेदः स नः पर्षदति दुर्गाणि विश्वा नावेव सिन्धुम् दुरितात् निवर्णां तपसा ज्वलन्तीं वैरोचनी कर्मफलेषु जुष्ट आम् दुर्गां देवी शरणमहं प्रपद्ये सुतरसितरसे नमः No. Oh, okay. <laughs> yeah. Yeah, it's been a long time. Long time ago. I don't know how many people are yes, there sorry. then but uh, this is a long They time. I think this is as for started. yeah. Yeah. Okay. No, I was there. I also remember that. Okay. So that is why it's easy to. <laughs> oh, perfect. Sure. We did get see it a second time around. Here. <laughs> yeah. Okay, anybody else want to try? अल्ट्रै हरि ऐ हे लर्निङ्ग् फ़र्ट्लम् ओम् जातवेदसे सुनवामसो मरातीयतो निदधातिवेदः स नः स्पर्शदति दुर्गाणि विश्वानावेव सिन्धुं तुरितात्यग्निः निवर्णां तपसा ज्वलन्तीं वैरोचनीं कर्मफलेषु जुष्टां दुर्गां देवीगं शरणमहं प्रपत्ये सुतरसितरसे नमः वेरि गुड्बडिस्ट् You I I <laughs> you know, I don't don't Don't know if you you have have have text text, or not. If you don't have the try try. anyway. But but let's see what happens. It it. doesn't matter. In the, your cell phone, I have something. Uh, okay. Sanskrit. I can't read too well, but I'll try. Try, try. Don't worry. Okay. हव ओम् जादवेद से Sunavama Soma Maratiyato Nidahati Vedaha सनपर्षदधि दुर्गाणि विश्वा नाे चिन्धु अग्नि अग्निः नास् गोण्ट् लिटल् बिट् बिका ऐ लेर् हिन्दी बट् यु नो नाट् इट् एनिमो सो इ Yeah. Good, good, But if you can't read Devanagari, it it. becomes easier. That's <laughs> all. Yeah. Oh, okay. I got ओके ऐ गा ओके विश्वन् इस् एक्स्ट् वन् ताम् अग्निवर्णां तपसा ज्वलन्तीं वैरोचनीं कर्मफलेषु जुष्टां दुर्गां देवीं शरणमहं प्रबध्ये सुतरसितरसे नमः Very good. You got it? <laughs> I don't know. I guess you I don't cool. need any other thing. You can read Devanagri now. <laughs> okay. Yeah. Good. Okay, anybody else want to try? Can I try? Yes, yes, go ahead, please. Om. Yata Veta Sehna Vama Soma Marathi Yato Nidaha Di Veda Hama सनःपर्षदधि दुर्गाणि विश्वा तामग्निवर्णां तपसाज्ज्वलन्तीं वैरोचनीं कर्मफलेषु जुस्ताम् दुर्गां देवी गं शरणमहम् नमः ॐ जातवेतसे सुन वाम सोमरातीयतो नितिदेवः वेदः वेदः स नः पर्षदति दुर्गाणि विश्वानावे वा सिन्धुं तुरितात् ज्वलन्तीं वैरोचनीं कर्मफलेषु जुष्टा दुर्गां देवी ति okay. वेदः <laughs> स्पर्शदति दुर्गाणि विश्वा नावेव सिन्धुम् दुरितात्यग्निः तामग्निवर्णाम् तपसा ज्वलन्तीम् वैरोचनीम् कर्मफलेषु जुष्टा आम् दुर्गाम् देवीगुम् शरणमहम् प्रपद्ये सुतरसितरसे नमः I think everybody got it. Anybody else left? I think everybody went right this time. Yeah, I think everybody. Went. Okay, good. So we'll stop here uh, today and then we'll start again with the same thing next week, Buddha Suptam itself. So as people know, maybe it'll go faster. Let's see. <laughs> All right. It doesn't matter. I think this is a little bit easier to learn as well now. ke okay. let's do uh, tri lokaha samstaha and stop for the day <speaking in foreign language> om lokaha lokaha samstaha sukhino bhavantu lokaha lokaha sukhino bhavantu lokaha lokaha sukhino bhavantu om shanti shanti shanti ॐ श्रीगुरुभ्यो नमः हरिः ओम्